कृष्णम् विजानम् गराजस्वपन्ना अपोवसा नादिवमुत्पादन्ति पृथिवीम् युज्यते राजसपृथक्रमेकमुभ्याः निकभुतश्चीकेता तस्मिन् साकन्त्रिशतानसङ्गमोऽषष्ट्यम् न च नाचलासाः तस्य स्वरस्व स योजो भूर्जे न विश्वापुष्य शिवार्याणि योरत्र धाव सुविद्य सुतत्र स्वरस्वदितमिह धातवेकः यज्ञेन यज्ञमा यजन्तदेवास्तानि धर्माणि प्रथमान्यासन् नः स चन्तगत्र पूर्वे साध्याः सन्ति देवाः समानमेतदुदकमुच्चैत्यवचाःभिः भूमिम् भर्जन्याचिन्वन्ति जन्मन्त्यग्नजाः दिव्यम् सोपन्नम् वा गतम् भृगन्त पपाम् गर्भम् दर्शतमोषधीना अपि मतो वृष्टिस्तर्पयन् कया सुभातपागदः यया मती कृतजेता सजेतेऽर्चम् दिशष्मम् वृषाणो वसूया कस्य ब्रह्मा निजषुषर् युवाः नः को अध्वरे द्रजातो अन्तरिक्षेकेन महामनसारी रमाम कृतस्तमिन्द्रमाहीनः सन्मेको यासि सत्पदे कियुच्छा संरक्षसे समरानः सुबाणैर्वोचेस्तन्नो हरिभोजत्ते अस्मे ब्रह्माणि मे मत यः संसृता सृष्म यत् यत् प्रभृतो मे अद्रीः हर्यम् युक्थे मा हरीवतस्तानो वच्छ अतोः भयवम् भवेभिरुदिना स्वक्षत्रेभिस्तन्वाशुम्भमानाः ममभिरेतामुपयुद्महेन्विन्द्रस्वधामहि नामूथ अस्या जन्मामेकं समधत्ता हिगत्ये आम् योग्रस्तबिरस्तु विष्मान्विश्वस्य शत्रोरणामम् वधस्मै भूरिचकर्थयुज्येभिरस्मे समानेभिर्वृढभवंसेभिः भूरिणवा वासभिष्टेन्द्र कृत्वा मरुतो यद्वसाधीमानुत इन्द्रियेणश्वेन भावेन चिशो बुवान् अहमेतामन मे विश्वश्चन्द्रासुगा अपश्च करवज्रबाहुः अनुत्तमाते मघभन्नकिर्णवत्पाहन्नस्ति देवताविधानः न जायमा नो न स तेन जातो जानीकरिष्या प्रावृद्ध एकस्य जन्मे विद्वा अस्तो जो जानुवाम् कृणवै मनीषा अहम् योग्रो मारुतो निच्छ मविन्द्रयतिमामरुदस्तो मोहत्रजन्मे नरस्वत्यम् ब्रह्म चक्र इन्द्रायविष्णे सुमघाज मह्यम् सख्ये सखायस्तन्वे तनूभिः देवे देते कृति मारोच मानाश्रपजे शोदधा नाः सङ्लक्ष्या वरुतश्चन्द्रवन्नाच्छान्तमे शरया धातनूनाम् कोऽन्वत्र वरुतो मामहे मप्रजातनसखीन्द्ररथा सखायः मन्मा निभिपादयम् दलेषाम्भो दलमे रामऋताना द्रुवसेनकारुरस्माञ्चक्रे वाण्यस्य मेधा ओभिप्रमच्छेवा ब्रह्मा निचलिताभो अर्चते तो मरुतजीर्मान्दाग्यस्य मान्यस्य कारो एनाया शेषयाम् विद्यामेधनम् हृदनम् जीवता भद्रान् न अभिधय मनाः ओ हरिः ओ ोभसाय जन्माने पूर्वम् हि त्वम् ऋषभस्य केतवे वैहे वयामन्मरुतस्तु विश्वनो युधेव शक्रास्तविषाणी कर्तर नित्यम् न सूनम् यस्मा भूमासो अमृता हरा सतराजस्पोषम् च हविदा दासुषे ऊक्षम् च स्मे मरुतोहितायैव पुरो रजाम् शिवया सा मजोभुवाः आजेरजाम्सितवेषेभिरम् जात प्रभजे वा सस्वय दासो भयम् देवि स्वाभुमानानि हर्म्या देत्रो भोजापजाता सृष्टिषु यत् देशया मा नदयम् तपर्वादाम् जिवो वा पृष्ठम् नर्या अजुच्यमुः विश्वोः भो, अजुच्य भो, भो अज्ञम् भयदेवनस्पतीरथीयम् दे वप्रजीः तपोषाधिः यूयन्ना उग्रामरुदस्तु जेतुनारिष्टग्रामास्तु मतिम्बी वर्तन यत्रा बोधिजग्रदधिक्रमिर्दी रणादीपस्वसुधीदेव बर्हराः विदधे सुष्टूताः अर्चम् त्यक्कम्बिरस्य पीतजेन विदुर्वीरस्य प्रथमानिपौंस्यातभूजिभृस्तमभिूते रघार्भिरक्षता मरुतो जलम् जमुग्रास्तपसो विरप्सिनः पाचना संसास्तनायस्य पुष्टिषु विश्वाणि भद्रा मारुतो विधस्पृध्येव च विषाण्याहीता हंसेष्वात्प्रथेषु भाद्रजोक्षो वश्चक्रासमजाविवावृते भूरिनि भद्रान्येषु बाहुषु पक्षस्वरुक्मारभदासो अञ्जयाः हंसेष्मेताः पमिषुराधिवयोनपक्षाञ्जनुश्रियोधिरे महान्तो बह्ना विद्भो ूरे दृशो ये दिव्याजीभस्त्रिभिः मन्द्रासु जिह्वास्वलीताभिः संविश्वा इन्द्रे मनुतत्वभिष्टुभाः तद्वः सुजादामरुतो महि त्वनम् दीर्घम्बो दात्रमदीतेरिवम् व्रलम् इन्द्रश्चलत्य च सा विक्रूणादितज्जना जयस्मै सुकृते अराध्वम् तद्वो जाभित्वम् मारुतः परे युगे पुरु यच्छंस मम मया धिया मन मेमाव्या शाकम् नरो धंस मे राजीकृत्रिरे येन दीर्घम् मारुतसूरवापयुष्माकेन परेण साधुरा सह आयत्तदनम् मृज हे जना सेभिरुजयज्ञेभ्यस्तदभीष्टिमस्याम् एष वस्तोमो मरुतजिजङ्गेर्मा धार्यस्य मान्यस्य कालो एडायाशेष्ठदन्मे भजाम् विद्यामेकम् मृदनम् जीरदानम् सहस्रम् दयम् द्रोदयो नः सहस्रमिषो हरिवो गोत्ततमाह सहस्रम् राजो सहस्र नवुपालो यन् द्वदाः ो वोभिर्मरुतो यान्तच्छाद्येष्ठे भर्वाभिहद्दे वै सुमायाः अधयदे परमाः स बुद्धस्य जिद्धनयम् दपारेक्षयेषु सुधीता घृताजीरः गुहाचरम् दीमनोषो न जोषाः सभाव्य शुभ्रा अयासो यव्यासा धारण्येव मरुतो विमिक्षुः नरोदशी अपनुदन्त घोरा जुरन्तवृथम् सख्याय देवाः जोषद्यदीमसूर्या स्यैविषीदस्तु कारोदशी नृमलाः आसूर्येव विदतो रथङ्गा त्वेषप्रतीका नभसोनेत्या स्ताभयन्त युवतिम् युवानः शुभे निमिश्रामिजदेव अर्को यद्वो मरुतोहविष्माङ्कायद्गाधम् सुदसो मोदुपश्यन् व्रतम् विभग्निमग्नो निरुताम् महिमा सद्यो अस्ति स जायधी वृमनाहम् यश्चिराज निर्वह ते वरुणामद्याच्च अप्रशस्तानि उदच्च वन्ते अच्यूताध्युवाणी वा मृदयी मरुतो मरुतो हन्त्यस्मे आराजिच्चवासो हन्त मापुः सुवांसो नो नेदो धिषदापरिष्टुः भजमध्येन्द्रस्य प्रेक्षा भयम् स्वोमो चे महि स भर्ये भयम् पुरामहि च नो अनुद्योन्तर्भुक्ष नता मनुष्यात् येषजीयर्मम् दार्ग्यस्य मान्यस्य कारोः एषा या शेष्ठतन्मे भया विद्यामेषम् व्यजनम् यज्ञा यज्ञा धियं यज्ञायज्ञापस्समनादो धुर्वनिर्धियम् बो धियम् बोधे पजाभूतदिभे भोर्वाचस्विदायरोदस्योर्महेवा वृत्यापवाचेषु भृक्तिभिः वम्रासो नये स्वयाश्वतपथयिषम् स्वागभिजायम् तदूतयः सहस्रियासो अपान्नोर्मयाः सो नोक्षणाः ो नये सुासृप्तां स वो भृत्सुबी दासो दुपसो नासते अयिशांसेडुबिणीरभेहस्तेडुखादिश्च घृतिश्च संजाधे अवस्वयुक्तादिवावृथा जुरमर्त्या अरेण वस्तुभिधाता गच्चवदृढानि जन्मरुभ्राज दृष्टयः विद्युतोनाहन्मेच्युतया माधिपुरप्रेधापरम् क्वारम् मरुतो यस्मिन्नाजय यत् श्यामय सविधुरेपसंहीतम् व्यद्रीलापतद्वेषवन्दवम् सा निर्नवो भवती स्वर्वती चेटापिपा गा मरुतपिश्वति भद्रावो राजः प्रीणतो न दक्षिणा पृथुर्जयी असुर्य भजञ्जयति प्रतिष्ठो भन्ति सिन्धवक्पविभ्यो यदभ्रियाम् वाचामुदीरयन्ति अवस्मयन्त विद्युतः पृथिव्याम् यदि घृदम् मरुतः प्रश्नुवन्ति असोदश्वर्म हतेरणायत्पेण मया ताम् मरुदामनीकम् ते सप्सरासो जनयन्ता भवादि सुधामि श्रीराम् वर्य पश्यन् एष वस्तोमो मरुतङ्गीर्मान् धार्यस्य मान्यस्य कारोः एषा या शेष्टन्वे भयाम् विद्यामेषम् वृजनम् जीरदानम् मम चित्तमिन्द्रयजेदान्महश्चेदसिक्तजसोऽवदूताम् चिकित्त्वाम् सुम्नावश्वतमहि प्रेष्ठा अयिज्वरन्द्रविश्वकृष्टेर्विधानासो निश्चिधो मध्यत्रा मरुताम् रचरधार्मेहस्य प्रधनस्य साधौ तम् यक्साद इन्द्ररिष्टिरस्मेधेम्यभ्वम् मरुतोः जुनन्ति अग्निश्चिद्युष्मा दशे तु सुवाराद्वीपम् तथा दिप्पजाहंसि त्वम् तु नयम् नकलम् अयम् दाहो धिष्ठजादक्षीर एव राजिम् स्तुतस्तयास्ते इन्द्रकोसलमाः प्रणेता रः कस्य दिवृतायोः येषु मरुतो प्रणयम् द्विजे दुझे स्मा पुरागादूजन्तीव देवाः प्रतिप्रजाहीन्द्रमीलुषौण्ड्रे महः पार्थिभेसल नेयतस्व अथज तेषाम् ऋसुबुध्ना सयेतार्यः पौंस्यानि तस्थुः तिघोराणामेता नामजाताम् मरुताम् शृण्तनायन्तोमैर्वमानन्नपतयम् ना नसर्गैः ब्रह्माणेऽभ्य इन्द्रविश्वजारदामरुद्भिः सुरभोगो अग्राः सदानेभिस्तवसेनेव देवैर्वीद्यापेषम् मृदनम् धीरदानम् न नूनमस्ति न श्वः कस्तद्वेदयदद्भूतम् अन्यस्य चित्तमभितम् जरेण्यमुताधीतम् विनश्यति किन्नालिङ्गजिघाम् दधिभ्रातरो मरुतस्तव एधिः कल्पस्व साधिजामानः स्वमरणेऽवधिः किन्ना भ्रातरगस्य विद्मा हि तेजसा मनोऽस्मभ्यमिन्न दित्ससि अरम् कण्वन् त्रिवेधिम् समग्नि तत्रावृतस्य वेदेन यज्ञम् ते हे दलवापहै सुरीजुषेवसुपते वसूनाम् त्वम् मित्राणाहम् मित्रपतेधेष्ठाः इन्द्र त्वम् मरुद्भिः संवदस्वधप्रासानींषि भिक्षे सुमतिम् नेद्याभिर्निहेलो धत्तविच् स्वामेमस्तो मो मरुतो नमस्वा न तदा नष्टो मनसायि देवाः उपे मायातमन साधुषा नाजूजा नमः सयद्वृधा साः ो नो मरुतो वृणयन्तु तस्तुतो मघपासम्भविष्टः भूर्वान्यश्वामरुतो अस्मादखन्द्राभ्यमरुतोभ्यम् भाव्यानिशीतान्या सन्तान्यारे च क्रमा मृणता नः ृटभ्रवोधाग्रमुग्रे भिस्तवीरः सहोदाःन्द्रहीयसौन्द्रेन्भवा भरद्भिरवा जातवेलाः सुप्रकेतेभिः सार्दधाना विद्यामेगम् भजनम् जीरदानम् श्चित्रवः आरेदावस्तु आरे दान भो मरुतरिञ्चदीसूः आरे अस्मायमस्य तृणस्कन्दस्य रविषः परि व्यङ्गसु दानवः भूर्ध्वा नः कर्त जीवसे यत्सामनभन्या अन्यथा वेरर्था प्रधानम् सर्वत् भावो धेनवोश्यतब्धाः यत्सत्मानम् दिव्यम् विवासान् अथदृढावृढाभिस्वेदुर्हव्यैर्मृदो नाश्रोमधियजो गुर्यात् महायनाङ्गोर्त होता भरदेवर्यो विशुधाय शः ृथिव्याः दस्वो नन्दर्दूदोजीतवाकर्मास्मै प्रचोत्नानि देवयन्तो भरन्ते द्विषोषलिन्द्रो दस्मवर्चा सत्यवसुज्ञोरथेष्टाः मुष्टिहीर्द्रञ्जोभद्वारः सूरो भगवायोरधेष्ठाः प्रतीदश्चिज्योति यान् बृढम् वा सोमी प्रगति च महिलान् रभ्यो अश्च कक्षे हेयास्मै संवि जयिन्दो बन्नभूमा सुधासूरसदामुराणम् प्रभजिन्दवम् वरितम् सजध्यै सजोड सजिन्द्रम् मदेक्षोणे सूरिञ्चिद्य अनुपदम् दिवाजै ये पाहि देशम् सपना समुद्रा भोजत्त आशुपदम् दिदेवी श्वादे अनयोषा भोजो असामयथा सुषकाय जैनस्वभिष्टजो नरान्न संशैः असद्यथा नयिन्द्रो वन्दनेष्ठा सुधा विष्वर्धसो नरान्न संशैरस्माका सदिन्द्रो वज्राहस्तः निद्रायुगोलपूर्पदिन्द्रष्टौ मध्यायुपुपाधिक्षन्तु यज्ञैः यज्ञो युष्मेन्द्रङ्कश्चि गृह्णन्तु हुराणश्चिन्मनसा परियन् दीर्धेनाच्छादादृषा नोगो दीर्घो नो च्वा मोढन इन्द्राद्र मृत्सुदेवैरस्ति युष्पादयसुष्मिन्नभयाः महस्त्यद्यस्य भीरु हविष्मतो मरुतोमन्त देहीः एकस्तोम इन्द्र तुभ्यमस्मे जयतेन गातुम्हरिवो विदो नः आनोहो वृत्त्या सु विद्यामेषम् मृदनम् जीवदाहम् तुम्राजेः द्वये च देवारक्षा बाह्यासुहत्तमस्मान् त्वम् सत्त्वा नर्मघवानस्तरुत्रोपसवानः स होदाः धर्म इन्द्र वृद्धवादः सप्त यत्पुरः नायुमे वृत्तम् पुरुत्साहरुन्धीः अजामृतायन्द सुरपत्नीश्चेभिः पुरुहृतरूणम् रक्षो अभिमसृम् पूर्वजानम् सिंहो ने अवां शिवस्तोः शेषन्नुदयिन्द्रजस्मिञ्जो नौ प्रतस्तयेपीरवस्य मह्ना निरन्नाम् दृढता मृष्टवाजाने वः यस्मिन् चागाम् स्योपञ्जो निद्रावातस्या प्रसूरश्चक्रम् मृगदा दधिस्पृधो यासि षद्भज्रबोवा इन्द्रमित्रे रूपम् चोदप्रवृद्धो हरिवो अदासूरे रज एवः सन्नर्यमनम् सजायोस्त्वया सूर्ता वहमाना अपत्यम् तवत्कविरिन्द्रार्कसा दौक्षान् दासायो वर्हणीयाः करति स्व मखवादानुचित्रा ऋतुर्यो ने कुजा वाचुश्रेत् सणम् जागुस्सहो न भो वीरणाय पूर्वे धीरात् पुरो न भितो नामो मध देवस्य पीयोः कन्धुनीरिन्द्रधुनि मते ऋणो रहसीरा न दुर्बसञ्जतम् स्वस्ति मृगतमोपराण् सर्वविश्वासा श्रुधाम् होता विद्यामेषम् मृगणम् जीवता मत्सवायिते महपा हरिवो मत्सरोवदाः ेवन्दर्भाजीत आहस्ते कन्दवत्सरोमधोवरेण्यः समेन्द्रदा च प्रेतनाशालमत्यः त्वं विदोरः सलीदाचोदयोपदूषोरथम् सोमम् वृतमोषः ूजम् कमे चक्रमेधा नो जृष्णायम् कुत्संवा तस्या स्वैः सृष्ट्यन्ता मोहिते बभुदक्रदुः रत्रघ्नावारि गोविदा मम् श्रेष्ठा स्वसादा यथा पूर्वेभ्यो जयृतभ्यायम् कवया जि वा मो न कामनुद्वालिविदम् विद्यामेलम् मृगलम् वन्सी रामस्य जिष्टजलिङ्ग्राविन्दोषादेशि सक्रुवन्दिरविन्दसि तस्मिन् नावेशिरो कश्चना मनस्वधाय मुख्य तेज भन्न चक्रीषद्वृषा यस्य विश्वारिहस्तयोः पञ्चक्षिदीनाम्बसु स्वासय स्वयो अस्मद्दिव्ये वासन असम्बन्धम् समञ्जहि दूनाध्यो न धेन अस्मभ्यमस्य वेदनम् दद्धिषु निश्चीदोहते आभोगस्य द्विवर्गसोऽर्केषु सानुषगसत् आचारिन्दस्येन्द्रो वाजेषु वाचिनम् यथा पूर्वेभ्यो जद्रग्भ्यायन्द्रमजा जिवापो न दृश्यते बभूथ आनुत्वा निमिदम् जोहवीमि विद्यामेषम् मृगनम् जीरदावानुम् आदर्षनिप्रावेशभोजनानाम् राजा कृष्टीनाम् पूरुहूत इन्द्राः सुदश्र वस्यन्नवसोपभ्रव्युक्ताहरे वृषराजा ह्यर्वा एते वृषाणा वृषभाता इन्द्र ब्रह्म युजो वृषा रथासो अस्मादिक्षतेभिराजा हर्वा महेत्वा स्वयम् रसो मे आदिक्षरथम् मृषणम् मृषा चो देख्ष मत्परिषिक्ता मधूनि ृभ्याम् हरिभ्याम् जाहि प्रपतोपमद्रिक् अयम् यज्ञो देह अयम् विजेधिवा ब्रह्मा जयमिदसया हि विवाहजविभू साहरी इह ओ दृष्टो दयिङ्गया शर्वा ब्रह्माणि मान्यस्य कारो विद्यावस्तो विद्याभेघम् वृजनम् दीर्घानम् यद्धस्यात इन्द्रसृष्टिरस्तेजाः बभूधा च निरुभ्य भूमि नः कामम् महयन्तश्वासे अस्याम् पर्याप आयोः न घाराजेन्द्रादभन्नो जा जानुस्वसारा घनवन्तयोनौ आपत्तिरस्मै ऋतुगाः अवेडङ्गमन् नैन्द्रः सख्यावयश्चेदानिभिरिन्द्रः प्रचुतो रश्लोदाहवन्नाधरमाणस्य कारोः प्रभर्तारथम् दाजुरागुभागवद्यम् दागिरोगिध्वमा भूत् एवा सुश्रवस्याप्रघातः प्रक्षो अभिनेत्रिणोऽभूत् समर्जयिषस्तव यजमानस्य संसाः वयाः वयम् दशत्रू न भिष्टाः मम हतो मन्यमानान् त्वम् राधात्मो नो मृधे भूवर्विद्यापेषम् वृजनम् जीवदाहम् शरदः समाना दोढामस्तोः ऋषसो जलयन्तीः विनादिश्रियम् जगिमातनो नाम द्यूनवध्मेर्वृड नो जगम्युः ये चिद्धिपूर्वारुदतापासन् साकम् देवेभिरवृतानि ते इदवादम् मह्यन्दामातनवध्निर्वृडभिर्जगम्युः मृगाश्रान्तम् यतवन् विश्वायुस्मृतो अभ्यस्रवाव जया वे तत्र सुरी समाजम् यत् सम्यम् चाभिथुनामभ्यजावस्य मारुधरः कामागम् विलाजात अमुतः कुतश्चित् लोपामुद्रा मृषा नन्नीरीणातिथीरमधीराधयति स्वसन्तम् इमन्न स मम ते तो बब्रुवे यत्सीमाकश्च कृमागत्सुनिकामोहिमत्याः अगश्च खनमानः खनित्रैः प्रजामपत्यम्बलमिच्छमाहनः वौवर्नावृहे रुग्रः पूषत्या देवेश्वासिषो जाम युगोरजांसियमासो अश्वारसो यद्भाम् पर्यन्नांसिदीयत् हिरण्ययाम्बजः प्रजा जन्मद्वक्तिबन्ता वृजसे रक्षतो प्रयज्ञो स्वीभरा जिवाजाये क्षे मधुपाभिषे च युवायुश्रिया जामधत्तम् भक्व मामाजाम बहूर्यङ्गो वामृधप्सु न सुचर्य ते हविष्माहान्धर्मम् मधु मन्दमत्र देवो न क्षोदो वृणीतमेपस्विनापस्व युष्टि रथ्येव चक्रा प्रति यन्ति मध्वाः आवान् दानाय ममृतीयदस्रागोरोहे न गौग्र्यो न जिव्रीः चे माक्षु ब्रह्म नियजि सुधापुरम् रे राम्रदोन वाजम् फलञ्चिद्धिवाञ्ज निः सत्यामि पन्याम हेमि फलर्विहितावा सिद्धिष्माश्विनामनिष्माम् युवाम् सिद्धिष्माश्विनामनुद्योन्विरुद्धस्य प्रश्रवणस्य साधौ अगस्योपदस्ताः धुनिव निरयत्सहस्रैः प्रयद्महेधे महिना रथस्य प्रसन्दायाथोषो लहोता छत्रम् सूरिभ्यः बुध वा स्वम् वाम् रथम् वयमज्जाहोमे वस्तो मे अश्विनाथमि अरिष्टने बिम्ब निद्यामि यानम् विद्यापेढम् मृदनम् धीरदाहानम् प्रेष्टापिषाम्राजीणामध्वर्यन्तायनम् निधो अजन्वाम् यज्ञो आकृतप्रसत्यम् वसुधि अवीता राजनानाम् आभामश्वा सु चावातरम् रसो देव्यासो अत्याः मृगणो भीत पृष्ठा नेलस्व राजो अश्विनाः वहन्तु आभाम् रथो वनिर्न प्रभत्वाहंसु प्रवन्धुरस्सु विदाय गम्याः स्मै ज्युष्णर्वा मन्यस्सु मगस्य सूर्यर्दिवो अन्यस्वगः पुत्रवो हे वाञ्जिजेरुर्गुहो वसाम् मनोभिसङ्गः सुगम्या हरैरन्यस्य बीमयन् दवाजैर्म रजाविनाभिघोषैः प्रवाम् शरद्वान् मृषभो न निषा पूर्वीढस्तर जिमद्भजिष्टन् येनैरन्यस्य बीमयन् दवाजैर्वेढन् दी नद्यो नागोः असर्जिरावेदसागेर्वाणे अश्विना त्रेधा चरन्ति उपस्तुता भवतं नाञ्जा मण्डया वृणु सम्भवम् मे उतस्याम्बते मेघो वीषना पीपाशकोर्णसे के मनुषोदस्यान् युवाम् भूषे वाश्विनाम् न जाले भविष्वान् उपेयद्वाम् वरिमस्याले राजो विद्यामेढम् मृगनम् जीगदानुम् अभूदितम् वरिभ्रमो भूषदालथो मृषन्मदसामनीषिणः ष्ण्याः विश्वलाः वसौति गोलभामाजिधिष्ण्याः भरता मा दस्वादम् दृष्टा रच्याः रचयिता पूर्णम् प्रथमम् वरे हेमध्वाचिन्देन किमत्र दस्वाणशक्ति वा साधे नो यः कश्चिदः धर्म हीयते अभिक्रमिष्टम् जुगतम् पणेन सञ्जो निर्विप्रायकृतम् वचस्य वेम्भजतमभितो राजदस्सुना हतम् मृधो विरसुस्तान्यश्विना वाचनम् च विदौ रत्मिनीम् कृतमुभासम् तम् इवमेतम् चक्रतः सिन्धुरप्लवः मन्वन्दम् प्रक्षिणम् तौ ग्र्यायकम् येन देवत्रावनसानिरोगदः सुपत्तनीक्षोदासोमः अवविद्धम् तौ ग्र्यत्सा अन्तरलारम्भरे तव शिप्रविद्धम् चोरा भोजुष्टाबुधस्विभ्या विषिताः पारयन्ति कस्मिद्वृक्षो निश्चितो मध्ये अन्ना सोऽयम् तौव्यो नादः पर्यशस्व यत् अन्नामृगस्य पदरोदिवारभुदस्विनामोहतु स्रोमताजकम् तद्वान्नरा सद्या मनुष्याद्यद्वानास उचतमवोचन् अस्मादद्य सदा सोम्यादा विद्याफेणम् वृजनम् जीरदानम् ञ्जासात्मनसोऽयात्रबन्धुरो वृषनायस्त्रीचक्रः येनोपजातः सुकृतो रोणम् पृधातु नापतथो विर्नपन्नैः सुभद्रथो वर्तते यन्न भिक्षाञ्जेतिष्टाधकृतो मन्दानो वृक्षे वपुर्वपुष्या सियङ्गीर्जिबो दूहिद्रोषसाथे आदिष्ठतम् सुभृतम् ज्योरसो वा पावनो वृता निवर्तते हविश्वाले येन न राजा सत्येषयध्यै भक्तिर्जातस्तनजायत्मनेः च जा। मा मृगो वा भृतीराजदर्षीर्वा परिभर्तमुदमादि धत्तम् अयम् वाम् भागो निहित इयङीर्दस्राम् निजयो वधूनाम् युवाम् गोरामपुरुदश्राहव देव देहमिष्पामे वयन्ताहवङ्गस्य प्रतिभां सोमो अश्विनावधारी देहजातम् प्रतिभर्देभजानैर्विद्यावेशम् वृजनुम् जीरजातम् ः ओ हरिः ओवामद्यतापरम्भुवे मोच्छन्द्या पुनशिवह्निर्सैः आसत्यागुहजित्सन्दा वर्यो जीवो न सुतास्तराय अस्मे पूर्णभेषणावादये वदन्ता श्रुतमे अच्छोक्तिभिमे चेदारा च कर्मैः श्रीपूर्णविषुदेव देवाना सत्यामहतुम् सूर्यायाः भजन् देवाङ्कभुहासु जातायुगादूर्णे भवरूढस्य भूरेः तस्मेदा वाम् माध्वीराजिरस्तु स्तोमम् विरोलम् मान्यस्य कारोः अनुयद्वाम् श्रवस्यासु बालो स्वीर्याय दर्शनयो वदन्ति हेगवाम् सोमो अश्विनावधानिमानेभिर्मघवानासु भृक्ति यातम् भक्तिस्तन या यत्पने चागस्त्येना सत्यावदन्ता रिष्मतम सत्पानस्य प्रम् सोमो अश्विनावधायि देहयातम् पतिहद्देहयानैर्विद्यामेहम् रजनम् जीरदा पूर्वा कापराजोः कथा जाते कावयः को विभेद विश्वान्मनाद्धरामपि वर्ते देवहनीचक्रियेव भूरिन्द्वे चलन्ती चलन्तम् पद्वन्तम् गर्भामुपीरे दधादेस्थेद्या भारक्षालम् पृथिवीरो अभ्यात् मेहो धात्रमदीते रनर्वम् भुवे स्वर्वदपधम् नमस्वत् भद्रोदसी जनजतञ्जरित्रेद्या भारक्षरम् पृथिवीरो अभवात् अदप्यमाने अवसावन्ति अरुष्यावरोदसी देवपुत्रे उभे देवानामुभयेभिरह्नाम् जाबा रक्षतम् पृथिवी नो अभ्यात् सङ्गच्छमाने युपरि समन्ते सुधामित्रोरुपस्थे अभिजिघ्रन्ति भुवनस्य नाभिञ्जाबा रक्षतम् पृथिवी नो अभ्यात् गुर्वी सद्माने मृहती धृतेन हुबे देवा नाम वा सात्री ददा तेजे अमृतम् सुप्रदीके ज्या वा रक्षरम् पृथिवी नो अभ्यात् उर्वी पृथ्वी बाहुले दूरे अनन्ते उपद्रुवेसा यज्ञे अस्मिन् ददा तेजे सुभदे सुप्रदूर्धी ज्या वा रक्षरम् देवान्वागच्च गृमागच्छिरागस्सखायम् वासरमिद्या स्मदिम्बा यन्धेर्भूजावनामेढा रक्षम् पृथिवीरो अभवात् भा मा माविष्टा मुभे मा भूतीताम् भूरिति गर्यसुतास्त राजेनामदन्तयिषयमदेवाः ृतम् दिवेद भोजम् पृथिव्याः विश्रावाय प्रथमम् सुमेधाः पाता वाद्याद्दुहिता दधीके पिता माता च रक्षताः इदं द्या वा पृथिवी सत्यवस्तुभिब्रुवे वा भूतम् देवानाम भवे अहो धनुविद्यावेषम् वृजनम् दीर्घारुम् भिर्विदु स्वस्ति विश्वा रस्य पिता देवये तु अभियथा युवा नो मत्सानो विश्वम् जगदभित्ते मानीषा आ नो विश्वास्कागवन्तु देवाभित्रो हर्यमामरुनः स्वजोलाः भुवन् यथा नो विश्वे वृथा सकरम् सुधाः म् सस्तिभिः सुधापरिषदृोत्त सूरिः उपाभजे गीरक्ताः सुघेनुः समाने अनहम् अर्कम् विषुरूपे पजसि तस्मिन्नो धन् र्बुद्ध्यो होमयस्कस्य शन्न विद्युषी वेत्ति सिन्धु येन पादमपाजु नामोजुजम् वहन्ति ओ